संहितापाठम् शतञ्जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमुसन्तान् शतमिन्द्राग्निसविता बृहस्पतिः शतमिन्द्राग्नि सविता बृहस्पतिश्शतायुषा हविषेमं पुनर्दु शतं जीव शरदो वर्धमानशतं हेमन्तान् शतमु वसन्तान् शतमिन्द्राग्नि सविता बृहस्पतिश्शतायुषा हविषेमं पुनर्दुः